वैशंपायन उवाच एवम् दैव बलाविष्टो धर्मराजो युधिष्ठिरः भीष्म द्रोणैर्वीर्यमाणो विदुरेण च धीमता युयुत्सुना कृपेणाथ सञ्जयेन च भारत गान्धार्यापृथया चैव भीमार्जुनयमैस्तथा विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा सोमदत्तेन च तथा बाह्लीकेन च धीमता वार्यमाणोऽपि सततन्न च राजा गवाश्वम् बहुधेनूकमपर्यन्तम जाविकम् गजाः कोशो हिरण्यञ्च दासीदासाश्च सर्वशः यष वनवासाय पाण्डवाः यूयौ वयौ वा विजिता वसेम वनमाश्रिताः अनेन व्यवसायेन जितमित्येव च पुनर्युधिष्ठिरमभाषत इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि पुनर्युधिष्ठिर पराभवे षट्सप्ततितमोऽध्यायः